अत चिदम्बराष्टकम् चिकजान्तकम् चित्स्वरूपिणम् चन्द्र मृगधरम् चर्म प्रियकरम् चतुरभाषणम् चिन्मयम् गुरुम् भय भावनास्थितम् दक्षमर्दनम् दैव द्विजहिते रतम् दोषभञ्जनम् दुःखनाशनम् दुरितशासनम् भज चिदम्बरम् भावनास्थितम् बद्ध भस्मभूषितं बहुलशोभितम् बन्धुभि स्तुतम् भज चिदम्बरम् भावनास्थितम् दीन तत्परम् दिव्यवचनदम् दीक्षितापदम् दिव्य तेजसम् दीर्घशोभितम् क्षेमसंभवं, सम्भवम् क्षीणमानवम् क्षिप्रसद्यवम् क्षेमदात्रवम् क्षेत्रगौरवम् भज चिदम्बरम् भावनास्थितम् दक्ष भूषणम् तत्त्वसाक्षिणम् भस्म पोषणम् व्यक्तरूपिणम् भज चिदम्बरम् भावनास्थितम् यस्तु चापिकम् चिदम्बराष्टकम् पठति नित्यकम् पावहम् सुखम् कठिन तारकम् घटकुलाधिकम् भज चिदम्बरम् भावनास्थितम्